गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् तर्टि वन् क उवाच ततश्चिन्तां चकारासौ तत्र नेतुं तु बालकं तत् ज्ञात्वा प्राहतं नन्दी स्वामिन्युष्मत्प्रसादतः शोषयिष्ये चूर्णयिष्ये गिरीनपि आज्ञापय ततो मह्यं भवान् कार्यं हृदि स्थितं क उवाच भणितं तस्य तच्छ्रुत्वा तुष्टप्राहरः सदम् हर उवाच साधु, साधु प्रोक्तमाशयं मे विवृण्वदा पौरुषं ते मया ज्ञातं शदशो नन्दिकेश्वर इदानीमध यत्कार्यं वदामि तत्कुरुष्व भोः माहिष्मत्यां महापुर्यामास्ते राजा महाबलः वरेण्य इति विख्यातो नानाद्धर्मपरायणः यस्य पत्नी महाभागा पुष्पिका नाम नामतः तस्यां सद्यप्रसूतायां सुप्तायां कापि निन्ये बालं तत्पुरतो नेयो बालस्त्वया लघु नीत्वा स्थाप्यस्तत्पुरतो यावन्निद्रादि सा शुभा क उवाच एवमाज्ञां समाकर्ण्य शङ्करेण समीरिदां शीघ्रं बालं समादाय न सत्वरः प्राक्षिपत्पुरदो बालं सानसुप्ता बुबोधतम् शीघ्रमुड्डीय सप्राया नन्दिकेशो महेश्वरं उवाच निजवृत्तान्तं मार्गे स्वयमनुष्ठितम् अकस्मात् गगनादेवराक्षसी कोरदर्शना भक्षयन्दीबालमांसं मामाश्रुत्यस्थिदा विभो तव प्रसादात् वेष्टिदा राक्षसी मया भ्रामयित्वा विनिक्षिप्ता महापर्वदमस्तके शतथा खण्डिता साधु त्वन्नामोच्चारणात्प्रभो तदोपश्यं महाव्रातं गन्धर्वाणां दुरात्मनां कथं मया तैर्योद्धव्यम् रक्षितव्यः कथं शिशुः इति चिन्ताकुलतया स्मृतस्त्वं ह्रदि शङ्कर ततः पुच्छेन शृङ्गाभ्यां क्रोधोच्छ्वासैश्च लत्तया पङ्कारेण च तान् सर्वान् निवार्य बलवत्तरान् मृध भुदा के जेत्के जिद्भग्नशिरोङ्क्रयः पतिता शतता भूमौ पुष्पवृष्टिस्तदोपद तदोहमगमदेव कृत्वा कार्यं त्वयेरिदं तवेच्छाविषयं को नु अस्त्वन्नामदो देवजयं प्राप्तः स बालकः तदशिवो हर्षयुतो लिलिङ्गनन्दिकेश्वरम् उवाच प्रसन्नात्मा ज्ञातं ते पौरुषं दृढं नास्ति त्रिभुवने कोऽपि त्वत्समो नन्दिकेश्वर क तद प्रणम्य विश्व पावती मगम्क्षस प्रणम्यता योज्य हस् प्रोजे मधुरया गिरा मशिवाज्ञया निदो नीद ममदी पुरी वरिण्यपत्न पुदुषिकाया न था यश यतस्तेन पुनरादत्तो वरस्तस्य बभूवः अहं पुत्रत्वमेष्यामि ब्रह्मज्ञानप्रकाशकः निशम्यवचनं तस्य सर्वज्ञा पार्वदी तदा जहर्षजननी तस्य शिष्योर्वीर्यमनन्तकम् उवाच परया भक्रिया ज्ञातं ते पौरुषं सुत हदा त्वया महाघोराराक्षसी खोरनिस्वना गन्धर्वाश्च हदा दुष्टारक्षितश्चैव बालकः अज्ञातस्तापि तस्तत्र कृतम् विसर्जा विश्रा चाकत्त्त्गणेशणे क्रीड़ाखंडे गंधर्वजदुतरशतमोध्याय ओ